हरि ओम् श्रीसीतारामचन्द्राभ्यां नमः अथ श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे अष्टात्रिंशत् सर्ग प्रमुख वानरे सह सुवेल पर्वतम् अधिरूढस्य श्रीरामस्य तत्रैव रात्रो निवासः स कृत्वा सुवेलस्य मतिमारोहणम् प्रति लक्ष्मणानुगतो रामः सुग्रीवम् इदमब्रवीत् विभीषणम् च धर्मज्ञम् अनुरक्तं निजाचरम् मन्त्रज्ञम् च विधिज्ञम् चक्ष्णया परया गिरा सुवेलम् साधु शैलेन्द्रम् इमम् धातुशतश्चितम् अध्यारोहा महे सर्वे वत्स्यामोऽत्र निशामि माम् लङ्काम् निलयम् तस्य रक्षसः येन मे मरणान्ताय हृता भार्या दुरात्मना येन धर्मो न विज्ञातो न वृत्तम् न कुलम् तथा राक्षस्य नीचय बुद्ध्या येन तद्गर्हितम् कृतम् तस्मिन् मे वर्तते रोष कीर्ति ते राक्षसाधमे यस्यापराधान् नीचस्य वधम् रक्षामि रक्षसाम् एको हि कुरु ते पापम् कालपाशवशं गतः नीचेनात्मापचारेण कुलम् तेन विनश्यति एवम् सम्मन्त्रयन्नेव स्वक्रोधो रावणम् प्रति रामासुवेलम् वासाय चित्रसानमुपाहृत वृहत् पृच्छतो लक्ष्मणचयनम् अन्वगच्छ समाहितः स शरम् चापमुद्यम्य सुमः विक्रमे रतः तमन्वारोह सुग्रीव सामाप्य स विभीषणः हनुमान्नदो नीलो मैन्दो द्विवदेवच एव शरभो गन्धमादनः वनस कुमुदश्चैव हरोरम्भश्च यूथपः जाम्बमा सुषेणश्च वृषभश्च महामतिः दुर्मुखै च महातेजः तथा च तवपिः एते चान्ये म् गिरिम् गिरिचारिणः अध्यारोहन्त शतशः सुवेलम् यत्र राघव ते तु प्रवरद्वाराम् प्राकारशोभिताम् लङ्काम् राक्षसम्पूर्णाम् ददृशो हरि उत्सपः प्राकार राक्षसै ददृशुस्ते हरि श्रेष्ठा प्राकारम् अपरं कृतम् ते दृष्ट्वा वानरा सर्वे राक्षसान राक्षसान् युद्धकाङ्क्षिणः ममुचेर्विधानादान् तस्य रामस्य पश्यतः ततो सन्न मत् सूर्य सन्ध्यया प्रतिरञ्जितः पूर्णचन्द्र प्रदीप्ता च स रामो हरिवाहिनिपति विभीषणेन प्रतिनन्द्य इत्यार्थे श्रीमद् रामायणे वाल्मीकीयाधिकारी युद्धकाण्डे अष्टात्रिंशः सर्गः श्रीसीतारामचन्द्रार्पणमस्तु